स गत्वा विविधाञ्चैलान्देशान् बहुविधांस्तथा अदृश्यन्त्याख्यया वध्वाथाश्रमेऽनुस्रुतोऽभवत् अथ शुश्रावसङ्गत्या वेदाध्ययननिःस्वनम् पृष्ठतः परिपूर्णार्थं षड्भिरङ्गैरलङ्कृतम् अनुव्रजति कोऽन्वेष मामित्येवाथ सोऽब्रवीत् अहमित्यदृश्यन्तीमं सा स्नुषा प्रत्यभाषतशक्तेर्भार्या तपस्विनी वसिष्ठ उवाच पुत्रिकस्यैष साङ्गस्य वेदस्याध्ययनस्वनः पुरा साङ्गस्य वेदस्य शक्तेरिवमया श्रुतः अदृश्यन्त्युवाच अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते समाद्वादश तस्येह वेदानभ्यस्यतो मुने गन्धर्व उवाच एवमुक्तस्तया हृष्टो वसिष्ठ श्रेष्ठभागृषिः अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ततः प्रतिनिवृत्त स तया सहानघ कल्माषपादमासीनं ददर्श विजने राजा क्रुद्ध उत्थाय भारत आविष्टो रक्षसोग्रेण इयेषातुं तदा मुनिम् अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः भयसं भय संविघ्नयाचाविषमब्रवीत असौ मृत्युरीवग्रेण दंडेन भगवन्नी प्रगृहतेन का राक्षसोभ्येति दारुण